अथ सप्तदशः सर्गः स रामो रथमास्थाय सम्प्रहृष्टसुहृज्जनः पताका ध्वज सम्पन्नम् महार्हा श्रीमान् नानाजनसमन्वितम् सगृहैरभ्र सङ्काशैः पाण्डुरैरुपशोभितम् राजमार्गम् ययो चन्दनानाम् च मुख्यानामगुरूणाम् च सञ्चयैः उत्तमानाम् च गन्धानाम् क्षौमकौशाम्बरस्य च अविद्धाभिश्च मुक्ताभिरुत्तमैः स्फाटिकैरपि शोभमानमसम्बाधम् तम् राजपथमुत्तमम् संवृतम् विविधैः पुष्पैर्भक्ष्यैरुच्चावचैरपि ददर्शतम् राजपथम् दध्यक्षतह विर्लाजैर्धूपैरगुरुचन्दनैः नानामाल्योपगन्धैश्च सदाभ्यर्चितचत्वरम् आशीर्वादान् बहून् शृण्वन् सुहृद्भिः समुदीरितान् चापि सम्पूज्य सर्वानेव नरान्ययौ पितामहैराचरितम् तथैव प्रपितामहैः अद्योपादाय तम् मार्गमभिषिक्तोऽनुपालय यथा स्मपोषिताः पित्रा यथा सर्वैः पितामहैः ततः सर्वे रामे वत्स्याम राजनि भुक्तेन परमार्थैरलम् च नः यदि पश्याम निर्यान्तम् रामम् राज्ये प्रतिष्ठितम् ततो हि नः प्रियतरम् नान्यत्किञ्चिद्भविष्यति यथाभिषेको रामस्य राज्येनामि तेजसः एताश्चान्याश्च सुहृदामुदासीनः शुभाः कथाः आत्मसम्पूजनी शृण्वन्ययौ रामो महापथम् न हि तस्मान्मनः कश्चिच्चक्षुषी वा नरोत्तमात् नरः पिराघवे राघवे यश्च रामम् न पश्येत्तुयम् च रामो न पश्यति निन्दितः स वसेल्लोके सर्वेषु सहि हि धर्मात्मा वर्णानाम् कुरुते दयाम् चतुर्णाम् हि वयस्थानाम् तेन ते तमनुव्रताः चतुष्पथाम् देवपथांश्चैत्यांश्चायतनानि च प्रदक्षिणम् परिहरम् जगामनृपतेः सुतः स राजकुलमासाद्य मेघसङ्घोपमैः शुभैः प्रासादशृङ्गैर्विविधैः आवारयद्भिर्गगनम् विमानैरिवपाण्डुरैः वर्धमानगृहैश्चापि रत्नजालपरिष्कृतैः तत्पृथिव्याम् गृहवरम् महेन्द्रसदनोपमम् राजपुत्रः पितुर्वेश्म प्रविवेशश्रियाज्ज्वलन् स कक्ष्याधन्विभिर्गुप्तास्ति स्रोतिक्रम्यवाजिभिः पदातिरपरे कक्ष्ये स सर्वाः समतिक्रम्य कक्ष्या दशरथात्मजः सन्निवर्त्यजनम् सर्वम् शुद्धान्तः पुरमत्यगात् तस्मिन् प्रविष्टेऽपितुरन्तिकम् तदा जनः स सर्वो मुदितो नृपात्मजे प्रतीक्षते तस्य पुनः निर्गमम् यथोदयम् इत्यार्षे श्रीमद् रामायणे आदिकाव्ये अयोध्याकाण्डे सप्तदशः